ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं फिफ्टीन् वैवाहिकोत्सवं तच्छ्रुत्वा वचनं देवी मन्दस्मितमुखाम्बुजा भुजा स तदोवाक्यं ब्रह्मविष्णुमुखान् सुरान् स्वतन्त्राहं सदा देवा ममानुरूपचरितो भविता तु मम प्रियः तथेति तत्प्रतिश्रुत्य सर्वैर्देवैः पितामहः उवाच च महादेवीं धर्मार्थसहितं वचः कालक्रीता क्रयक्रीदा पितृदत्ता स्वयं युता नारीपुरुषयोरेवमुद्वाहस्तु चतुर्विधः कालक्रीतादुवेश्या स्यात् क्रयक्रीतादुदासिका गन्धर्वोद्वाहिता युक्ता भार्या पितृदत्तका समानधर्मिणी युक्ता वदा यदद्वैदं परं ब्रह्म सद सद्भावर्जिता चिदाननत्मक प्रकृति समयतवासी चब्रह प्रकृति सामे नाखिला कार्यकारिणी विचिन्व योगिशनगादय सद सत्कर्मरूपां च व्यक्तव्यक्तो दयात्मिकां त्वामेव हि प्रशंसन्ति पञ्चब्रह्मस्वरूपिणीं त्वामेव हि सृजस्यादौ त्वमेव ह्यवशिक्षणाद् भजस्व पुरुषं काम्यया। इति विज्ञापिता देवी ब्रह्मणा सकलैः सुरैः स्रजमुद्यम्य हस्तेन चक्षेपगनान्तरे तयो सा सामाला शोभयन्ती नभस्थलं पपाद हि तदा कामेश्वरस्य तदो मुमुदिरे देवा ब्रह्मविष्णुपुरोगमाः ववृषु पुष्पवर्षाणि मन्दवातेरिदाखनाः अधोवाज विधातादु भगवन्तं जनार्दनं कर्तव्यो विधिनोद्वाहस्त्वनयो शिवयोर्हरे मुहूर्तो देवसम्प्राप्तो जगन्मङ्गलकारकः त्वद्रूपाहि महादेवी सहजश्च भवानपि दातुमर्हसि कल्याणीमस्मै कामशिवायतु तच्छ्रुत्वा वचनं तस्य देवदेवस्त्रिविक्रमः ददौ तस्यै विधानेन प्रीत्या तां देवर्षि पितृमुख्यानां सर्वेषां देवयोगिनां कल्याणं कारयामास शिवयोराधिकेशवः उपायनानि प्रददुः सर्वे ब्रह्मादयः सुराः ददौ ब्रह्मेक्षुचापं तु वज्रसारमनश्वरम् तयोः पुष्पायुधं प्रादादम्लानं हरिरव्ययं नागपाशं ददौ ताभ्यां वरुणो यादशां पतिः अङ्गुशं च ददौ ताभ्यां विश्वकर्मा विशां पतिः ताडङ्गौ चन्द्रभास्करौ नवरत्नमयीं भूषां प्रादा प्रादाद्रत्नाकरस्वयं ददौ सुराणामधिपो मधुपात्रमधाक्षयं चिन्तामणिमयि मालां कुबेरः प्रददौ तदा साम्राज्यसूचकं छत्रं ददौ लक्ष्मीपतिस्वयं गङ्गा च यमुनाताभ्यां चामरे चन्द्रभास्वरे अष्टौ च वसवो रुद्रा आदित्याश्चाश्विनौ तथा दिक्पालामरुदः साध्या गन्धर्वाः प्रमथेश्वराः स्वानिस्वान्यायुधान्यस्यै प्रददुः परितोषिताः रथांश्च तुरगान्नागान् महावेगान् महाबलान् पुष्ठानरोगानश्वांस्तान् क्षुत्रिणा परिवर्जितान् दधुर्वज्रोपमाकारान् सायुधान् सपरिच्छदान् अधाभिषेकमादेनुःसाम्राज्ये शिवयो शिवम् अध करोद्विमानं च नाम्नादु कुसुमाकरम् विधा ताम्लानलं वै नित्यं चाभेद्यमायुधैः दिवि भुव्यन्तरिक्षे च कामगं सुसमृद्धिमद यद्गन्धक्षणमात्रेणभ्रान्तिरोगक्षुधार्तयः तत्क्षणादेव नश्यन्ति मनोह्लादकरं शुभम् तद्विमानमधारोप्य तावो भौ दिव्यदम्पती चामख्या जनच्छत्रध्वजयष्टिमनोहरं वीणा वेणुमृदङ्गादिविधैस्तौर्यवादनैः सेव्यमाना सुरगणैर्निर्गत्य नृपमन्दिराद् ययौवीधिं विहारेश शोभयन्दी निजौ जदिहर्म्याग्रसंस्ताभिरप्सरोभिः सहस्रशः सलाजाक्षदहस्ताभिः पुरन्ध्रीभिश्च वर्षिता गाभिर्मङ्गलार्थाभिर्वीणा वेणुवादिनिस्वनैः ष्यन्दी विधिवीधिषु मन्दमन्दमधाययौ प्रदिगृह्याप्सरोभिस्तु कृतं नीराजनाविधिम् अवरुह्य विमानग्रात्प्रविवेश महासभाम् सिंहासनमधिष्ठाय सह देवेन शम्भुना यद्यद्वाञ्छन्ति मनसैव महाजनाः सर्वज्ञा साक्षिपादेन तत्तत्कामानपूरयद् तद्दृष्ट्वा देव्या ब्रह्मलोकपितामहः कामाक्षीति तदाभिज्ञां ददौ कामेश्वरीति च पुरे वस्तुनी सर्य कस्मी तहास्ून दिव्यान पुरो देव्या प्रदिश्म ततस्तुपुरो दिव्या जयायकसाकारा विमुक्ता न्यक्रीया गुणा सर्वकायुक्ता हृष्यकालोहरीश महादेव वास्व अ दिशाधीशास्तु सकला देवता ग देवर्षयो नारदाद्याः सनकाद्याश्च योगिनः महर्षयश्च मन्वाद्या वसिष्ठाद्यास्तपोधनाः गन्धर्वाप्सरसो यक्षा याश्चान्या देवजादयः दिवि भूम्यन्तरिक्षेषु ससंबाधं वसन्ति ये ते सर्वे चाप्यसंबाधं निवसुरें तदत्सलाइलाजनादयामसत मनुरागेण भूयस राजो भूयसा भूर्लोक विदुष सकसी त सर्वभूदलवासिनां राजी दुदोहा सर्वूतलवासीकमे सांकेमशंकरे दसवर्षसहसरायु क्षण युवापर है ततः कदाचिदागत्य नारदो भगवान् ऋषिः प्रणम्य परमां प्रोवाच विनयान्वितः परब्रह्मपरं धाम पवित्रं परमैश्वरी मदसद्भावसङ्कल्पविकल्पकलनात्मिका जगदभ्युदयार्थायव्यक्तभावमुपागता असज्जनविनाशार्था सज्जनाभ्युदयार्थिनी प्रवृत्तिस्तव कल्याणि साधूनां रक्षणाय हि अयं भण्डो सुरो देवि बाधदे जगदान्त्रयं त्वय्यैकयैव जेदव्यो न शक्यस्त्वपरैः सुरैः त्वत्सेवैकपरा देवाश्चिरकालमिघोषिताः त्वदाज्ञया गमिष्यन्ति स्वानि स्वानि पुराणि शून्यानि समृद्धार्थानि सन्त्वतः एवं विज्ञापिता देवी नारदेनाखिलेश्वरी स्वस्ववासनिवासाय प्रशयामास चामरान् ब्रह्माण्डं च हरिं वासवादीन दिशाम्पदीन् यथार्हं पूजयित्वा दुःप्रेषयामास चाम्पिका अपराधं ततः त्यक्तुमपि सम्प्रेषिताः सुराः स्वसां शैः शिवयोः सेवामादिपित्रोरकुर्वत एतदाख्यानमायुष्यं सर्वमङ्गलकारणम् आविर्भावं महादेव्यास्तस्याज्याभिषेचनं यः प्रादरुद्धितो विद्वान्भक्तिश्रद्धा समन्वितः जपेद्धनसमृद्ध स्यात्सुधा संमिद वाग्भवेत् न शुभं विद्यते तस्य परत्रेक च धीमतः यस्य प्राप्नोति विपुलं अचलाश्रीर्भवेदस्य श्रेयश्चैव पदे पदे कदाचिन्नभयं तस्य तेजस्वी वीर्यवान् भवेत् तापत्रयविहीनश्च पुरुषार्थैश्च पूर्यते त्रिसन्ध्यं यो नित्यं ध्यात्वा सिंहासनेश्वरीम् षण्मासान्महदीं लक्ष्मीं प्राप्नुयाज्यापकोत्तमः इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने वैवाहिकोत्सवो नाम पञ्चदशोऽध्यायः ओ